ओ uh... संयत्ता आसन्ते न व्यजयन्तस्तनोरपश्यत्ता उपाधत्तताभिर्वैश तनुवमिन्द्रियं वैर्यमात्मन्नभत्तेवाभवन्परासुरायिरीन्द्रतनुरुपदधादि तनुवमेव ताभिरिन्द्रियं वैर्यं जतमानात्मन् भक्ते थोसेन्द्रमेवाज्ञं सदनञ्चिनते भवत्यात्मना परास्यभ्या भवति यज्ञो देवे नाशक्नुबन्तोरपश्यन्ता उपादताभिर्वेते यज्ञमवरुन्धतैर्यज्ञतनुरुपदसारि यज्ञमेवताभिर्यजमानोऽवरुन्धे त्र्यस्त्रिमुं सदमुपदधादि त्र्यस्त्रिमुं सद्वै देवता देवता केवावरुन्धेऽसोऽधात्मानमेवाज्ञिगुं सदनञ्चत्मामुष्टुन्दवति यम् ज्योतिष्पदेपदधा ज्योतिरेवास्मिन् दधार्वाग्निश्चितोज्ज्वलदिताभिरेवैनगुं समिन्ध उभयोरस्मै लोकयो ज्योतिर्भवति नक्षत्रेष्टका ी कुरुतेषु वर्गस्य लोकस्या दक्षात्ते यत् सग्स्पृष्टा उपदध्यादृष्टे लोकमपि दध्यात वर्षकः पर्जन्यस्यात सग्स्पृष्टा उपदधाति एव लोकम् करोति वर्षकः भवति पुरस्ताधन्याः प्रते पश्चाधन्या प्राचेस्तस्मा प्राचीनानि च प्रतेचीनानि च नक्षत्राण्या वर्तन्ते ृथव्या उपदधात् पृषोणा कृत्यै द्वन्द्वमुपदधाति तस्माद्वन्द्वृतबोधृते भवा येषाम् मध्यमाचितिरन्तरिक्ष्मि भवा एषा द्वन्द्वमन्यापदधाति ततश्रोमध्ये धृत्या अन्तःश्रेषणम् वा गेताश्चितीनाम् एतृधव्या ऋतव्या उपदधातिनाम् विधृत्या अवगामनोपदधा येषा निश्चयोनिवेवा उवाचः विश्वामित्रो दधिष्ठायुयां प्रतिष्ठति पञ्चपोर्वाश्चित्त संवत्सर ऋतुष्वेव संवत्सरे प्रतिष्ठत्येता वा अधिपत्रे ैर्नामेष्टगाय श्रीता उपधीयन्तेऽधिपतिरेव्याय देवैयं देवताभ्यावृष्टरिताङ्गिरथ सुवर्गं लोकं यं तो या यज्ञस्य निष्कृत्याः प्रत्योह्यमभवत्यभिरण्य शल्कैः प्रोक्षति यज्ञस्य निष्कृत्या अतोभय रूपेणैवैनकम् समर्पयत्यतो हिरण्यो दिवधुवर्गम् लोकमे दि सहस्रवथा प्रोक्षदिताहस्रः प्रजापतिः प्रजापतेरामामे प्रजापते अग्नयिष्टका धेनवः सन्तीत्याह धेनुरेवी दे कुरु देता येन का मधुघामुद्रामुष्टुम् लोकमुपतिष्ठन्ते रुद्रायेश्चेतरिः जातो यस्य यथा वृत्सो जातस्तनम् प्रेप्स्येवं वा एष गेतरिः भागधेयम् प्रेप्स्यति तस्मै यदाहुदन्न भूया तद्भर्यम् च यजमानम् अध्याये शतरुद्रियञ्जुतिभागधेयेन दैवशमयदिनात्माच्छत्यद्भर्यन्न यजमानो यद् ग्राम्यानाम् वशूनाम् ये जदारण्यानामारण्यान् जलय वाग्वाजहुयाग् वाग्नग्राम्यान् वा वा वा पशोन्ारण्याहुतिर्वे जक्तिलाश्च कवेदक्षेरेण जोहायैवाय राय दजाहुदेवजोहो दिनग्राम्यान् पशोनहिनस्ति नारण्यान् गम् लोकयन् तोजायाम् घर्मम् प्रासिञ्चन् सा शोचन्ते मनम् पराजिहेदयोर्को भक्तसर्गस्य कत्वमर्कपर्णेन जुहो दृशयो नित्वायो सन्तुष्ठम् जुः तेडाभिरुद्रस्य दिक्ष्पायामेव दिशुरुद्रन्निरपदयते च रमायामिष्टकायाम् जुहोऽत्यन्त रुद्रान्निरपदयते त्रेधा विभक्तम् िमे लोकायुमानेव लोकान् समाव्यान् करोति यत्र सम्पद्यन्ते षड् भारत वरतिक्रामञ्जुहुयानन्दरवचारिणं रुद्राङ्कुर्यात स खल्वाहुक् कस्याम्बाह होगव्यापरामकमेवेन किम् शमयत्रेतावे देवता सुवर्ग्याय उत्तमाय आयुधमानम् व्याजयदिताभिदेवेन किम् सुवर्गम् लोकम् गमयधियम् दृश्या तस्य सञ्चरे पशूनान्यस्य जः प्रथमः पशुरभितिष्ठति धात्विमार्च्छति स्मन्नार्जमिति परिषिञ्जति मार्जयत्येवै नमथो दर्पयत्येव सेमन् धृत्वा क्षुभ्यन्न ना। सो जन्मस्मिन्लाक उपतिष्ठते दुर्ग्यते प्रजया वसुभर्यन्धत्तमरुदस्य गुम्रदानागित्याहाम् भावोर्गन्नं मरुतोऽन्नमेवावरुन्धेष्वर्गस्थे क्षुतमुन्ते चतुर्षन् विश्वत्याहयमेव द्वैत्य तमस्य क्षुधा यदि त्रिपरिषिञ त्रिवृद्वाग्निर्यास्तस्य त्रिः पुनः पर्यपद्यन्ते षड्वारेवास्य शमयत्यपां वा एतत् पुष्पं यद्वैतसोपादं सर्वोपकाव्यखया चापकाभिश्च विकर्षत्यापो धिप्रापतेश्वरो वेतगं सुता प्रतोषत्यैपजीवनीजो न वा एष ग्राम्येषु त्यष्टाभिर्विकर्षत्यष्टाक्षरागायत्रे गायत्रस्य सुजगुं शमयति पावकवतेभिरन्नम् मै पावकोन्नेनैवां शमयति मृत्युर्म कृष्णादिनङ्कार मृत्योरन्तर्धक्तेऽन्तरन्नाद्यादित्याञ्चतेऽ्यान्नान्तोर्धनाद्यन्ते नमस्ते हरसे शोचलित्या नमस्कृत्य शिवसीयागुं समुपचरन्ते यमेव द्वेष्टितमस्त्य परिपालक अस्मभ्यकम् शिवो भवेत् राहानम् परिपालको अन्नमेवावरुन्धे द्वाभ्यामसि क्रामधि प्रतिष्ठित्वा अवस्तवदेभ्याकुम् शान्त्ये व्याघयद पंका हुय्ञ मुखान क्षया व्याघाद क्षयाद प्रहरन्दे प्रतिष्ठु जातया मषत्कार सकुक्षागंज हणीयाह पक्ष दिना जातया मषत्कार दिन यकं से भ्रंति हूता ुतादोन्येतानग् भयान् प्रीणादिये देवादेवानामिद्यामजमिश्रेनावोक्षति हुतादश्चैव देवान हुतादश्च यजमानः प्रीणादिजमानं प्रीणन्ति यथैव हुतादः प्रेणादि मधुशा हुतादो ग्राम्यं वा यद्द्यारण्यं मधु यद्दध्यामधमिश्रेणावक्षरत्यभयस्यावृद्धये गृह गमेवेना देवाजया वशुभिञ्चक्रामधि प्राणलामानला इत्याह प्राणामेवात्मन् भक्ते वर्चोदावरिबोदायित्याह प्रजा वै वर्षः पजवो परिव इन्द्रो मृत्रमहन्त्रिधामग्रयेणेकवदाहुश्यतामजुः तस्याग्निरनेकवान् तेन भागधेयेन प्रेत षोडश धात्रस्य भोगा नेश्वरमेन पापन निरमुच्येणैकवदाहुदिञ्जु त्यग्निरेवास्यानीकवान् तेन भागधेयेन प्रेत पाप्न विदहतिवेश्वकर्मणेन पाप्नो निर्मोच्यते यङ्कामयेण चिरम् पाप्मनो निर्मोच्यते चेकैकन्दस्य जिहुयात् चिरमेव पाप्मनो निर्मोच्यते यङ्कामये तथा च पाप्मना निर्मोच्यते सर्वाणि तस्यानुदृत्यजुहूयात् तादृशेव पाप्मना निर्मोच्यते सो खलु नैव सोक्ताभ्याम् ज्योतिना नैव सूत्रया था प्रतिष्ठ उदयनमुत्तरा नय समिधा दधाति यथा जन यते खादृत्रिवद्वाने वास्तस्मै भागतेऽयङ्करो चौदुम्बरे भवन्त्योर्ग्वामुदुम्बरपूर्जमेवा स्वापि तथा कृत्वा विश्वे देवा प्राणामे विश्वे देवा प्राणेदेवैनमुद्यक्षते ज्ञेभरन् त्रिचित्तिभिद्या यस्माय दे ित्तायोग्यक्षयते दे देवेन समर्थयति पञ्च दे दिशो देवे यज्ञमवन्तु देवेरित्या हरिशोके प्रक्षपते पामतिं दुर्मित्याह रक्षसामपात्ये रायस्पोट यज्ञपतिमा भजन्ते रीत्याः पशवो वै रायस्पोटः पशो नैवावृन्धे षड् हरि षड्वारतमृति त्यै सूर्यर हरिगे पुरस्तादित्याह प्रसोक्ते ततः पावकाशिषो ने वा भगवन्न मेवा वरुन्धे देवासुधायत्तासन्ते देवा एतदप्रतिरथमपश्यन्ते नवे प्रत्य ्याञ्जयत्यभिजयति ताभिराजेमो लोको विधृता भनयो लोकयोर्विधत्या असोदसा विरानन्नं विराज्यवान्नाद्य प्रतिष्ठत् सन्तरिक्षमन्तरिक्षमिवाग्ने समाग्ने तथा सत्त्वायद्वाभ्याम् प्रतिष्ठे ते विमानयेन हव्ययामिवृष्ठस्मे पृश्नन्नमेवा वरुन्धे चादे छन्दागुं त्रिछन्दोऽभिदेवेन् विश्वा अव सन्नित्यावृद्धिमेवोपावत्तदेवाजामित्यान्नं वे वाजोऽमेवावृन्धेतं नो देवानम् आदवक्षदित्याः प्रजा वे पोम्नं प्रजामेव पशूनात्मन्धत्ते यक्षदग्निर्देवो देवादवक्षदित्याः स्वकाकृत्ये वाजस्य माप्रथमे मा ्रोजन्निग्राभ ब्रह्मणे वा बाणमुद्गृह्णाति ब्रह्मणा भ्रादुर्यन्निगृह्णाति प्रादेमनप्रदेशं प्रेषि विद्वानित्याहदेव लोकमेवेतयो वर्तते क्रमध्वमग्निनागमित्याहे मानेवेतया लोकान् क्रमदेव दुर्याहमुदन्तरिक्षमारुहमित्याहे मानेवेतया लोकान् समारोहति ना सुवर्यन्तो नाभे क्षन्दत्याह सुवर्गमेवेतया लोकमेत्यज्ञे प्रेहि प्रथमो देव यलामित्याहो भयेष्वेवे चक्षुर्दशादि पञ्चभिरधिकामलिभाज्ञावानेव यज्ञस्तेनवाहप्रत्याहस्राख्ये प्रजापति प्रजापते, प्रजापते राष्टैकस्मै देव यस्वाहेत्यां वे वाजोऽन्नः पूर्णामौदुम्बरेकस्वयमा त्रज्ञावानेवाज्ञस्तं प्रतिष्ठाङ्गमयति प्रेर्ग् पुरो नौदुम्बरे देतया या समिधमातसाधिमानाभ्यातृव्यायप्रहर निष्कृत्यां विधमते परमे जन्मन्नमेकं गते मातसादिभाेतां सितुर्वरेण्यस्य चित्रा विषमें शान्त्याग्निर्वाहवाग्निषद्वाग्निन्दुहेतागुं स पितुर्वरेण्यस्य चित्रामित्याहैष त्याह सप्तैवाणि प्रेणादि पूर्णयाजहोदि पूर्णैव प्रजापति प्रजापथयतेन्योनयाजहोदिन्यो नाद्य प्रजापति प्रजां दृष्ट्याग् भ्य निदाय प्राविषजग्मनसाे नो याजाङ्गुर्याद्यसा यज्ञस्य दर्विहोमं करोस्य प्रतिष्ठित्यै रायं वै वै एश्वानरो विन्मरुतो वैश्वानरघुं भूत्वा मारुताञ्जहोदिषमनुबद्धान्ति चैर्वै विश्वानरस्याश्रावयत्यपाकुंशु मारुताञ्जहोदितस्माद्रां विषमधिपतति मारुता भवन्ति मरुतो वै देवानां विष देव विष नैवास्मि मनुश्च विषमवलुन्धे सप्त भवन्ति सप्तगणाभि मरुतो गणश एव विषमवलुन्धे गणेन गणमृत्यजुहोत्रिविषमेवास्मानुवत्मानम् करोति र्धारान् जहोदिवसो मेधारासति वा ये जाहूयते धुतस्य वागेन मेधाधारामुष्टन् लोकेन्वमानोपतिष्ठत आज्य न जहोदि तेजो वाज्यन्तेजोपसोर्धारा तेजसैवा स्मे तेजो वरुन्धेऽथो कामावेवसोर्धारा कामा नैवावरुन्धेजम् कामयेत प्राणानस्यान्नाद्यम् विच्छिन्ध्यामिति विग्राह न्तस्य जुयात् प्राणानैवास्यान्नाद्यकामया प्राणानस्यान्नाद्यं सन्तनुयामिति सन्ततान्तस्य जिहूयात् प्राणानैवास्यान्नाद्यं सन्तनोदि द्वादश द्वादशान् जुहोदि द्वादश मासाणैवास्मा अन्नमवरुन्धेऽन्नञ्च मे शुच्य म इत्याहैतद्वा अन्नस्य रूपकं रूपेण ैवान्नमवरुन्धे दृष्टमापश्चमयिद्याहैषावान्नश्च यो निश्चयोन्यैवान्नमवरुन्धेभ्येन्द्राणि जुहोति देवता एवावरुन्धे यत्सर्वै मर्धमेन्द्रः प्रतितस्त्वारिन्द्र देवतानां भूयिष्ठभामगीन्द्रमुत्तरमाहेन्द्रियमेवास्मिन्नुपरिष्टादि एतद्वै यज्ञस्य रूपकं रूपेणैव यज्ञमवरुन्धे मृतश्च मे स्वकागारश्च मयित्याः रूपेणैव पशो न वरुन्धे कल्पादै जयुहो तिषुत्वा देव छन्दसंवार्ये काच तिस्रश्च मनुष्यछन्दसञ्च देव छन्दसञ्च मनुष्यछन्दसञ्चावरुन्धा त्रयस्त्रिवंशतात्रयस्त्रिपुंसद्वै देवता देवता देव ावरुन्ध अष्टाचत्वारिकम् सदाजुः अष्टाचत्वारिकम् सदश्वरा जगतेजागता जगत्यवास्ते पशो नवरुन्ध आजश्च प्रथमश्च रिद्वादशः रिद्वादश मासा संवत्सरः संवत्सर एव प्रतिष्ठति उपन च्छमानस्तम् देवाब्रुवन्नुपनावर्तस्थाव्यजसो ब्रभेत्वरम् वृणेभ्यमेव वाजप्रथमेयं जुहवण्डिधिलस्वादग्नये वाजप्रथमेयं जुक्वदे यद्वाज प्रथमेयं जुहोत्तमेव अभिषेकयेवास् जुहो दत्तग्राम्यावोषदयस् सप्तारण्या उभयेमवलुभ्या अन्नस्यान्नस्य जुहोत्यन्नस्यान्नस्यावलुभ्या औदुम्बरेण स्क्रेण जुहोत्योर्ग्वामुदुम्बरवोर्जन्नमोर्जैवा स्वावोर्जवन्नवरुन्धेवानामभिषिक्तोन्नवर्णैन्नादा वे धृपावर्ते धान्नाद्युपा वर्तते न तोषा चेति दुहाते राष्ट्रभृतो जुहोरि भुवनस्य पथगे मुखे पञ्चाहुदेवचिदकम् वातनामानि पातः पवते त्रेजहो द्वित्रय इमे लोकायेभ्य देव लोकेभ्यो वा तमवरुन्धे समुद्राधिनभस्मा नित्याहैतद्वैवातस्य रूपकं रूपेणैव वा तमवरुन्धेञ्जलिनाजुः ेषा मन्यथाहुतिरमकम्पदे स्वर्गाय मे लोकाय देव रथो युञ्यते यत्रा लोकाय मनुष्य रथयेन खलु मे देव रथोय लग्जवदाघेन पुंसकेन युक्तस्वर्गम् लोकमभिवहते यत् सर्वाभिः पञ्चभियुञ्ज यज्ञो यः प्रच्युतस्यानप्रतिष्ठिताहृदयस्य न प्रतिष्ठिता सो माप्रदष्ठिता यक्षानि नृभिप्रादः सवने ज्ञस्तं क्रियथानसि युक्तायत एवमेव प्रत्याहृदयस्तिष्ठन्ते प्रतिष्ठो वा प्रत्युत्थानि यज्ञायज्ञस्य स्तोत्रेद्वाभ्यामभिरुषरत्येतावान् यज्ञो यावानज्ञम भूमा त्वा स्यादपोर्ध्वक्रियते यावानेवज्ञस्तमन्ततोन् बाहृद्वाभ्यां प्रतिष्ठित्याय प्रस्तुतं <imitation> भवत्यथाभिवृषत्ते वागे तस्यानिष्टक आहुदिनव कल्पतयां वागे ज्यो निष्टक आहुदिं जोदिस्रवति वै यज्ञं यजमान यत्पुरश्चिर्य नत आहुदे नृत्ये प्रत्याहुदय तिष्ठन्ति न यज्ञः परा भवति गायत्रे नैवै नन्द ेन चितेन वेदामेके पुनराधेय एवं पुनश्चित पुनराधेयमाधत्य ्या अथ कल्वाह न चेतव्यद्रो वाय जगदग्न यथा व्याघ्रकम् सुप्तम् बोधयति तादृशैव तद खल्वाहुश्चेतव्ये यथावधेयानुकथयेन बोधयति तादृशैव तन्मनुरज्ञमचिनताम् पुनश्चितिमपश्यत्तामचिलया वैशात्पुनश्चितिञ्चन तद्यै न्द्रचिरञ्जन्वेदपशुकामः पशुपवेदं जन्वेद सुवर्गकामस्य नो वे पयसाम् प्रतिष्ठश्च न एव भूत्वा सुवर्गम् प्रवगचिदं चिन् वेदभ्रातव्यन् प्रेम भ्रातृव्यान् नुदौ भगदः प्रभु कञ्चन् ञ्जन्वेद पशुकामः पशुमाने भवेद ग्रामकामाग्राम्येव भवति श्मशानेदयः कामयेत पुकरुद्रियामिकरे विश्वामित्रीता पुंसयेताहव्यामस्य उपाधत्तताभिैततिष्ठस्येन्द्रियं वेर्य ृङ्कयद्विहव्यावपदधादेन्द्रियमेवताभिर्भेर्यं यजमाना भ्यातव्यस्य वृङ्के होतर्धिष्ठियं वधाजमानाय तनुं वे होदास्मयेवास्मायैन्द्रियं वेर्यमवरुन्धे द्वादशोपदधाति द्वादशाक्षराय रागदाः पशवो जगत्यैवास्मे पशो नवरुन्धे अष्टावष्टावन्येषुधिष्ठोपदधात्यष्टाशभाः पशवः पतोनैवावरुन्धे षण्मार्जालीये षड्वारतवरतवः क्रलुपे देवानेव देवान् पुत्रे प्रेरामि वाजसादयत्य नष्टप्रतिबद्धवति त्ययैकपिपुंशकेन प्रजाभयप्रायापत्यश्वस्तमेव साक्षादुर्ध्यषक्वरयः पृष्टं भवन्तोन्यवाय सव आलभ्यन्तदेव ग्राम्यामुदेवारण्यायच्छक्वरय पृष्ट त्यस्वस्तिपायपाचरश्वमं भवति रश्मिनावाश्व यतये स्वरो वा रङ्गं भायपामं भवत्यश्वस्त्ययत्ते धृत्ये संकृत्यच्छावाकसामं भवत्यच्छन्नयज्ञो वाय रजदष्टमेत्यादि सर्वो वा त्यक्षावाकसामम् भवत्यश्वस्य सर्वत्वाय पर्याप्त्यानन्द्याय सर्वस्तोमो दि मात्रमुत्तममहद्भवति सर्वस्याप्ते सर्वस्य चित्ते सर्वमेव देनाप्नोति सर्वञ्जयति